All right. भवदावरणं प्रति न किञ्चिदेव भक्ताना भवदावरणं प्रदे अभ्युपाय क्रमप्राप्यः संकुलोऽपि विशेषण भक्ति a 那 nah. सी सुधाम भक्ति पर भक्ति परे भक्तिः भक्तिर्नाम समोदता तारं विरमे भक्तिर् मे सु परम परे पाणाशन प्रसाधन सम्भूत समस्त विश्वया शिवया प्रलयो मुपगूढं शिवं वन्दे शिवं वन्द